हरि ओं अपो देवा मधुमतीर गृह्णन्जस्वतीराय सुिताना जागृत्रावरुणाभ्यन्याभिरीन्द्रमनय नत्यरातिः विष्ण ऊवर्मिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा वृष्ण ऊवर्मिरसि राष्ट्रदा राष्ट्रमपुम देववृघसेनो श्री राष्ट्रदा राष्ट्रं मे देव स्वाहा वृघसेणो श्री राष्ट्रदा राष्ट्रममुखमयी देयझ तस्थ राष्ट्रधा राष्ट्रं मे दत्त स्वाहा रथे तस्थ राष्ट्रदा राष्ट्र मामुखमयि दत्तौ यस्वतीस्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहौ राश्ट जस्वती राष्ट्रदा राष्ट्रममुखमयी दत्तापहापरिवाहिणीस्थ राष्ट्रदात् राष्ट्रं मे दत्त स्वाहा पापरिवाहिणी स्थ राष्ट्रदा राष्ट्रमोहमयि दत्तापां पतिरसि राष्ट्रदा राष्ट्रं मे दे स्वाहा पां देहि स्वाहापाभूषि राष्ट्रदा राष्ट्रमं कुमे देहि सूर्य त्वच स्वस्थ राष्ट्रदा राष्ट्रमे दत्त स्वाहा सूर्य त्वच स्वस्थ राष्ट्रधाराष्ट्रमं कुमे दत्तासुरज च स्वस्थ राष्ट्रदा राष्ट्रम्य दत्तस्वाहा सूरज व्रजस्थराष्ट्रदा राष्ट्रामकुमे दत्तो मान्दास्थराष्ट्रदा राष्ट्रं मे दत्तस्वाहा माम् दास्थराष्ट्रदा राष्ट्रमां कुमे दत्त व्रज क्षीतस्थ राष्ट्रदा राष्ट्रं मे दत्तस्वाहा व्रज क्षीतस्थ दत्त स्वाहा वा शास्थ राष्ट्रदा राष्ट्र मामुखमयी दत्त शोभिष्ठास्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा श्वष्ठास्थ राष्ट्रदा राष्ट्र मामुखमयी दत्त शक्वर्यस्व राष्ट्रदा राष्ट्रं मे दत्त स्वाहा शकवर्यस्थ राष्ट्रदा राष्ट्र मामुखमयि दत्त जना मे दत्त थ राष्ट्रदा राष्ट्र मां कुमयि दत्त विश्ववृतस्थ राष्ट्रदा राष्ट्रं मे दत्त विश्ववृतस्थ राष्ट्रदा राष्ट्र मां कुमयि दत्ता पहा स्वराजस्थ राष्ट्रदा राष्ट्र मां दत्त मधुमती मधुमतीभिः पृच्छन्तां मयि क्षत्रं क्षत्रिया वाना अनाः सिगत सहं य मयि क्षत्रां क्षत्रियाय दध्वती सोमस्थिति विखिरसि तवेव मयत् विखिर्भूयात् अग्नये स्वाहा सोमा यस्वा सवित्रे स्वाहा सरस्वत्यै यस्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा ूकाय स्वाहा श्लोकायस्वाहायस्वा भुजा यस्वाहा स्वा पवित्रयस्थोभञ्लव्यौ सवितुभः प्रसव उत्पूनान्यच्छिदरेण पवित्र न सूरजस्य रश्मिभिः अनुभृष्टमसि वा चोभंस्तपूजा प्रमसि स्वधमादीराप एता अनादिष्टा अपसुवसाना पस्थ्यासु चक्र्य वरुणः सपाद्य क्षत्रस्य नवमासि क्षत्रस्य यो राजोऽ क्षत्रस्य यजो निरासि क्षत्रस्यो नाभिरासि यन्त्रस्य वारत्र गणमासि मित्रस्यापि वरुणस्यापि त्वधायाम् ऋत्राम्बेतम् द्रिवासि रुजासि क्षुमासि पातैनम् प्राञ्चम् पातैनम् वृत्तञ्चम् पातैनम् त्रिजञ्चम् द्विभ्यः आविर्मजा आवित्तो अग्निर्ग्रहापतिरा वित्त इन्द्रो वृद्धश्रवा आवित्तौ निरुणम् धृतव्रता वा वित्तः भूगाद्विश्व भेदा आवित्ते ज्ञावान् पृथिवी विश्वशम्भुवा वावित्ताधिशर्मा अवयष्टादण्डशो गाः प्राचीनारोहगाय सामत्रिवृस्तोमो वसन्त अरितृब्रह्मद्रवीणम् दक्षिणामारुत् हतृष्णुत्वाम तु भयत्साम पञ्चदशस्थोमग्रीकमरितु क्षत्रन्द्रवीणम् प्रतीचीमारुत् ह जगति यत्त्वाम तु वैरूपग्नीसामवशस्थोमोभ्वरेखा ऋतुविद्रुदीचीमारोहानुष्ठुवा सामङ्कविषस्तो महाशरऋतु स्वामतु शाश्वरैवते सामन्यत्रिणेशवस्तो वै हेमन्त शिशिरावृतृद्रवीणां मृत्यस्तान्नमुचेः शिराम् भूमस्तदिकिरसि तदेव मियत्विर्भूयात् मृत्योपाज्योजोस्रवेतमसि हिरण्यरूपा उग्रसु विरोक उवाविन्द्रा उदिता सुरजश्च हारो हतम् वरुणमित्रश्च क्षातामधितेन्द्रित्यञ्चमितरसिंहरुणोऽसि सोमस्य माध्यमेन भ्राजसा सुवरजस्तवसेन्द्रस्येन्द्रियेण क्षत्राणाम् क्षत्रावतीरे विद्युमन्पामि इमेव सुगर्वान् महदे क्षत्राय महते ज्येष्ठाय महते यान राज्ञायन्दस्येन्द्रियाय हि नाम पुत्राणाै पुत्रामस्य विष एकौ वीराजा सोमोऽस्माकम् ब्राह्मणा नाग् प्रजालस्य पृष्ठान्नावश्चरन्ति स्म विष यानात् आवृतरन्न राता अयु बुध्यमनुहीयमाणाः विष्णुर्विक्रम नमसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसि प्रशापतेन त्वदेतान्यो विश्वारूपाणि परिता बभूव यत्कामास्ते जुः मश्चान्नो अस्मयमोक्ष्य पिता स वस्य पिता वय गुस्यामतयोरीणा गुस्वाहा हृद्राज प्रे अत समेतामस्यामेष्टमसि स्वाहा इन्द्रस्य व्रजोऽसि निस्माप्रशास्त्रोः त्रशिखाजिनयम् हव्यथायित्वा स्वधायित्वारिष्टो अर्जुनो मरुताम् प्रसवे न जयत् पाममनसा समिन्द्रियेण मात इन्नते वयन्तुराकाणयुक्तासो अब्रह्मता विदसाम तिष्ठारतमधिय अम्बय हस्तारश्मृजन्देव यमसे स्वश्वान् अग्नये ज्ञापत ये स्वाहासो माय वनस्पत ये स्वाहा मरुतामूजसे स्वाहिलस्य इन्द्रिया यस्वाहा पृथिवीदातर्मादािग्ो अहम् त्वा हिमसहाशुचिकरसुरान्दरिक्ष सद्धौताव्ये तिषदतिथृद्दुरोणसत ऋषदवरस ऋतसजोमसदुजा भोजा अजा अद्रीजा अरितम् नृहत् स्यायुरस्यायन्माविधेहि जोन्नसि व्रजो सुव्रज महिज्युवरजस्य व्रजन् मञ्जेहि इन्द्रस्य नाम् वीरजकृतो बाहु अभ्युपाव्योनासि सुखदासि क्षत्रस्य योनिरसि स्यो नामासीद सुखदामासीन क्षत्रस्य योनिनासीदो निषतादभ्रतम् रतो वरुणः तस्यास्वान् साम्राज्याय सुक्रतुः हरिभूरस्येतास्ते पञ्चरिषः कल्पन्ताम् ब्रह्ममस्ताम् ब्रह्म हिसरितासि सप्तप्रसन्न वर्णोऽसि सत्यम् जा इन्द्रोऽसि विषंजा ऋगुणत् बहुकारश्रेयस्कर भूयस्करेण्यस्य व्रजवसीते ममे रद्य अग्निः ऋतुर्जास्पतिजुषाण अग्निः ऋतुर्जास्पति राज्यस्य वेतु स्वाहा स्वाहा कृताः सूर्यस्तारश्मिभिरिजतभग् सजातानाम् मध्यमेष्ट्याय स्ववित्राप्रसवित्रा सरस्वत्याब्दा च पुष्कारूपैः पूष्णा पशुभिरिन्द्रेणास्मे वृहस्पतिना ब्रह्मणा ब्रह्मेन च साग्निनाथेज सत् सोमेन राज्ञा विष्णुना दशम्याधेवतया प्रसूतः प्रसरपामि अश्वदाम् वच्चस्म सरस्वत्यै वचस्वेन्द्राय सुत्राम्नै वच्यस्मो वायुः पूता पन्त्रेण प्रत्ययक्षोमो अतिश्रुतः इन्द्रस्य विज्यः सुताम् कुविदम् अजभवन्तो जादन्त पूर्वम् हियेहैकान्द्रियो जना निजे बरे को नम उक्तिम् यजन्ति उपयाम गृहीतोषु ह्यन्त्वा सरस्वत्येन्द्रायत्ना सुन्ने युवग्निसुरानमश्नानमुषादासुरे स च विपितानाशुस्पति इन्द्रम् कर्म स्म उद्रामिवपि तोरा वश्विन ओभेन्द्रावधुः काव्यैरथग्निसुनाभिः यत्सुरामन्नपि दहाशतीभिः सरस्वती त्वाम भगवन्न विषणक इति दशमा